day-to-day अने गुणः इको गुणवृद्धि दधातुलोपार्दधातुकेन्दति च दीहेताम् फलोऽनन्तराः संयोगः मुखनासिका वचनोऽनुनासिकास्य प्रयत्नम् सवरणम् नाजलौ गु देवनम् कर्तव्यम् ोमात् श्री निपात एकायनान् ओ सम्बुद्धौ साकर्येतावनाशेया च सप्तम् युद्धे दाराग्ववदेकस्मिन् करतमपौभ भौगा, बहुगणवशुगति सङ्ख्या न्दा षट् दसि च कुनिष्ठा कल्वादीनि सर्वनामानि विभाषादिसमासे बहुवीहौ न बहुव्रीहौ तृतीया समासे वृन्दे च विभाषा क्षिणोत्तरा पुरातनानि व्यवस्थायामसञ्ज्ञायाम् स्वमज्ञादिदनाख्यायाम् अन्तरम् वैर्योपसञ्ज्ञा नयोदिनिपादमव्ययम् परितश्च सर्वविभक्तिः हृन्मेजन्तः क्वातो शुम् पशुना भावश्च श्रीसर्वनामस्थानम् सुदृढपुंसकस्य न वेति विभाषा एणः समम् प्रसारणम् आद्यन्तौ चलितौ निरोऽन्यात्परा एतृष्पादेशे षष्ठि धानि योगा ध्याने पुरन्द्रपदा अलोन्त्यस्य नित्या आले परस्य अनेकादशिः सर्वस्य हानिवदादेशो न विधौ वचः परस्मिन् पूर्वविधौ न पदान्तचन परेयलोप स्वरसवर्णानुस्वारीक्षि न चिषु निर्वचने चि प्रदर्शनम् प्रत्युरूपः चलुप लोभे प्रत्ययलक्षणम् ननुमताङ्गस्य अशोन्त्यादिति अलोन्त्यात् पूर्व उपधा तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य संरूपम् शब्दस्य शब्दसञ्ज्ञाम् अनुदिश्रवर्णस्याप्रत्ययः अपरस्तपालस्य आदियन्तेन गृहे वान विदिस्तदन्त्रस्य वृद्धिनस्य शामादिस्तृत्तम् शतादीनि च एवम् प्राजाम् देशे इति प्रथमोऽध्यायश्रो सम्पादा वृद्धिस्तरप्तवपौषि सर्व प्रयुक्ते लोके चतुर्दश सार्धारुवाङ्के परन्तु योगालि भवति व्याम् च ब्रीडा मेदा बुध पुरुष क्लेश वदवशा इको ध्वलन्ताश्च इको झल् हलन्ता च इहो जेद गैः स्वपि प्रच्छनश्च इको धल् हलन्ताश्च ग्रहि सैच्छ इको धनुताश्च मृद मृद मुध कुश कुश वद वसत्वा रुदवेदमुष ग्रहि स्वपि कच्छः संस इको धनु हलन्ताश्च हिन्द्री भवतिभ्याम् च मृढ मृढा पुष पुष बलवस त्वाम् इदम् उषा गजी स्वापि तच्छो जल हलन्ताश्च इको जल हलन्ताच्चिन्दि भवतीभं च मृद मृद मृद पुष कृश वधवस मृद वेद मूष गी स्वपि तथा संस्था हिन्दी वा तेभ्याञ्च मृडा वृदा मृदा पूष क्रीश वादवसा मृदा वेदा मोषा ग्रही स्वापि प्रच्छा संच ्याम् च म्रेडा म्रेड गोष गोषेशवसा मेदा मोक्षरे सिद्ध पिको झल् हलन्ताच्च द्वितीयः पाद मासिद्धून् विभाजो नोः कायुधातुकमपि समोगाभिभेत्य किन्नि भवतीभ्याम् च मेड मेद मृग कृश कृश वदवसत्वा मृद मेद मुष जनि स्वपि सच्छः शरश्च निकोधम् फलन्ताच्च हिंसितावात्मनेपदेषु भासोरुणो सार्वधातु कामापि असंयोगालित् हिन्दी भवति भ्याम् च म्रीडा म्रीडा बुध पुरुषावशाग्रैः स्वापि प्रयच्छोचन्ता ेषु हलन्ताच्च लिङ्गि चावात्मनेपदेषु <laughs> लिङ्सि चावात्मनेपदेषु हलन्ताच्च निंसि चावात्मनेपदेषु उश्च हलन्ताच्च लिङ्सि चावात्मनेपदेषु उश्च हलन्ता च लिङ्गावात्मनेपदेषु वश्च वागमः लिंसिपदेषु ओष्टमः हनः श्री लिङ्चावात्मनेपदेषु वश्च वागमः हनासि लिङ्गचावात्मनेपदेषु पूश्च वागमः हनासिच्ना यमो गन्दने यमो गन्दने यमो गन्दने हना यमो गन्दने हनासि यमो गन्दने हनासि यमो गन्दने वागमः हनासित् यमो गन्धने वागमः हनासि यमो गन्दने वागमः अनासि यमो गन्दने उश्च वागमः हना यमो गन्धने उश्च वागमः अनासि यमो गन्दने कुश्च वागमः अनासित् यमो गन्दने विंशतात्मने पदेषु श्च वागमा अनासित् यमो गन्धने लिङ्िचावात्मनेपदेषु उश्च वागमः अनासित् यमो गन्धने लिङ्क्रिचावात्मनेपदेषु उश्च वागमः अनासित् यमो गन्धने यमो गन्दने यमो गन्धने यमो गन्धने यमो बन्धने पञ्चपञ्चपुष्पन्दि भवतिभ्याम् च मृड मृद रोध पुष केश पदवसात्वा रोध मुष गरे क्लेशः सन्ता विकोधल् भवन्ताश्चेन्द्रिया वाङ्मनि पदेषु ऊश्च वानाचित् यमो बन्धने भवानुकारिन्द्रिय विभाजातु परोयोगा नित्य निश्च मेल मृद बोध पुष क्लेश वज वसत्वा क्रोध मेल मूष्या सन्त इपोझल् अलङ्कार्या चावात्मनेपदेषु पुष्टाम् पालमा नमो वन्दने विभाषोपयमने विभाषोपयमने यमो वन्दने विभाषोपयमने यमो वन्दने विभासोपयमने यमो वन्दने विभाषोपयमने हा घोरिच्च सा घोरिक्षाघोरिच्च हा घोरिच्च सा घोरिच्च भो सा भोरिच्च विभाषोपयमने भो भो स्थाघोरिच भो विभाषोपयमने सा विभाषोपयमने स्थाघोरिच्य यमो गन्धने विभाषोपयमने खाघोरिच्च यमो गन्धने विभाषोपयमने स्थाघोरिचाघोरिच्यक्त्वा सेटा घोरिच्च नक्त्वा सेटा घोरिच नत्वा सेट् स्थाघोरिच्च निष्ठा गोरिच्च न त्वासे साहोरिच्च न त्वासेहोरिच्च न त्वासे निष्ठासी श्रीरिमिषा नीरिमिदृषा न चत्वासे निष्ठातिं श्रुरिमिदृशाच्च नत्वासे निष्ठासी श्रुमिदृशासे निष्ठासी श्रिमिनिदृशा सा गोरिचृचो ऋच्च नकस्त्वासे निष्ठासीं श्रीनिदृशा प्रमो गर्दने विभाषोपयमने साघोरिच्च न प्वासे निष्ठासीम् श्रीदि श्रीदृशायाम् यमो गन्धने विभाषोपयमने साघोरिच् न गासे निष्ठासीम् श्रीदिदृषः विंशतावात्मने परेषु उच्च बाहमान् हनासि यमो बन्धने विवासोपरिमने सालिच्य न नक, त्वासे निष्ठाशी श्री श्रीलि श्री भृषः मृषास्तिदीक्षायाम् लिङ्चावात्मनेपदेषु उश्च वागमः अनासीत् यमो बन्धने विभाषोपयमने स्थालोरिच् न चत्वारिदृशा विषस्तिक्षायाम् मेदमेदुद कुश कुश वद वस त्वाम् रुद वेदमुषम् हरि स्वपि तक्षः समस्याम् इको झल् हलन्ताच्च मंस्रिजावात्मनेपदेशुम् उच्य वागमः हनहासि यमोवन्दने विलाशो वर्णने साधोरिच्य धप्त्वा चेत् मिदि, ी भवतीभ्याम् च व्रेडा मृदा गोधूषकेशवदसात्वा ब्रूदा वेदा मूष ग्रहे सायच्छा संचा, एको झल् हलन्ताच्च चा, नि चावात्मनेपदेषु श्चा स्वागमः अनासीत् यमो गन्धने विभाषोपैर्मे सा गोरि न गच्छासे निष्ठासी दीक्षि दे दिषा ऋषस्ति शिक्षायाम् ईषस्ति शिक्षायाम् गानुदादिभाषो साहिकौ असयोगाय भवती च मेड मेड मृद कृश क्लिश वदवीदमुष परिष्वपि प्रच्छासनश्च निको धल् हनन्ताच्च निंसितात्मनपदेषु पुश्च वागमः and then